थैकषष्टितमः ततो ततोजाम्बवतो वाक्यमगृह्णन्तव नौकसः अङ्गदप्रमुखा वीरा हनूमांश्च च्छादयन्त इवाकाशम् महाकाया महाबलाः सभाज्यमानम् भूतैस्तमात्मवन्तम् महाबलम् हनूमन्तम् महावेगम् वहन्त इव दृष्टिभिः राघवेचार्थनिर्वृत्तिम् कर्तुम् च परमञ्जः समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः सर्वे रामप्रतीकारे निश्चितार्थामनस्विनः प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः नन्दनोपममासे दुर्वनम् द्रुमशतायुतम् यत्तन्मधुवनम् नाम सुग्रीवस्याभिरक्षितम् अधृश्यम् सर्वभूतानाम् सर्वभूतमनोहरम् यद्रक्षति महावीरः सदादधिमुखः कपिः मातुलः कपि मुख्यस्य सुग्रीवस्य महात्मनः ते तद्वनमुपागम्य बभूवुः परमोत्कटाः वानरा वानरेन्द्रस्य मनःकान्तम् महावनम् ततस्ते हृष्टा दृष्ट्वा मधुवनम् महत् कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः मधु ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् अनुमान्य ददौ तेषाम् निसर्गम् मधुभक्षणे ते निसृष्टाः कुमारेण धीमता वालिसूनुना हरयः समपद्यम् तद्रुमान् मधुकराकुलान् भक्षयन्तः सुगन्धीनि मूलानि च फलानि च जग्मुः प्रहर्षन्ते सर्वे बभूवुश्च मदोत्कटाः ततश्चानुमताः सर्वे सुसंहृष्टावनौकसः मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः गायन्ति केचित् प्रहसन्ति केचन नृत्यन्ति केचित् प्रणमन्ति केचित् पतन्ति केचित् प्रचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् परस्परम् केचिदुपाश्रयन्ति परस्परम् केचिदतिब्रुवन्ति द्रुमाद्रुमम् केचिदभिद्रवन्ति क्षितौ न गाग्राणि पतन्ति केचित् महीतलात् केचिदुदीर्न वे गामहाद्रुमाग्राण्यभि सम्पतन्ति गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति तुदन्तमन्यः प्रणदन्नुपैति समाकुलम् तत्कपि सैन्यमासीत् न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव दृप्तः ततो वनम् तत्परिभक्ष्यमाणम् द्रुमांश्च विध्वंसितपत्रपुष्पान् समीक्ष्य कोपादधिवक्त्रनामा निवारयामास कपिः कपींस्तान् सतैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवृद्धवीरः चकार भूयोमतिमुग्रतेजा वनस्य रक्षाम् प्रतिवानरेभ्यः उवाच कांश्चित् परुषान्यभीतमसक्तमन्यांश्च तनैर्जघाना समेत्यकैश्चित् कलहम् चकार तथैव साम्नोपजगाम कांश्चित् सदैर्मदाद प्रतिवार्यवेगैर्बलाच्च तेन प्रतिवार्यमाणैः प्रदर्शने त्यक्तभयैः समेत्यप्रकृष्यते चाप्यनवेक्ष्य दोषम् नखैस्तु दन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः मदात्कपिन्ते कपयः समन्तान्महावनम् निर्विषयम् च चक्रुः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये सुन्दरकाण्डे एकषष्टितमः सर्गः